श्रीमद्भागवतमहापुराणं चतुर्दशस्कन्ध द्वादशोऽध्यायः मैत्रे उवाच ध्रुवं निवृत्तं प्रतिबुद्ध्यवय ससान् अपेतमन्युं भगवान् धनेश्वरः तत्रागतश्चारण्यक्षुकिन्नरे संस्तूयमानोऽभ्यवदत्कृताञ्जलिं धनदुवाच भो भू क्षत्रितायाद् परितुष्टोऽस्मि तेन ख यस्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः न भवान् बधीद्यक्षान्न यक्षाभ्रातरं तव काल एव हि भूतानां प्रभुरव्यभावयोः अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि स्वाप्ने वाभात्य तन् ध्यानाद्यया बन्धविपर्ययौ तद्गच्छ ध्रुवभद्रं ते भगवन्तम् अथोक्षजं सर्वभूतात्मभावेन सर्वभूतात्मविग्रहं भजस्व भजनीयाघ्रिम् अभवाय भवत्सििदं युक्तं विरहितं शक्त्या गुणमय्यात्ममाययाम् वृणेः कामं नृप यन्मनोगतं मत्त मत्तस्वत्तानपदेशङ्कितः परं वरार्हों भुजनाभपादयु अनन्तरं त्वां व्यमङ्गशुश्रुमं नैत्री उवाच स ध्रुवो महाभागवतो महामतिः हरौ सव्रे चलितां स्मृतिं यजां तरत्ययत्नेन दुरत्ययं तमः तस्य प्रीतेन मनसात्तां दन्त्वैडबिडस्ततः अस्य तोऽन्तर्दधेशोऽपि स्वपुरं प्रत्यपद्यत अथायुज्यज्ञेशं क्रतुभिर्भूरि दक्षिणैः दव्यक्रियादेवतानां कर्मकर्मफलप्रदं सर्वात्मन्यच्युते सर्वेतिब्रोघां भक्तिमुद्वहन् ददर्शात्मनिभूते सूतमेवावसितं विभुं तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवसनं गोप्तारं धर्मसेतूनां मेनिरेपितरं प्रजाहम् षट्त्रिषद्वरषसाहस्रं शशासचितिमण्डलं भोगैपुण्यक्षयं कुर्वन्न भोगैरसुभक्षयम् एवं बहुशवं कालं महात्मा विचलेन्द्रियः त्रिवर्गोपैकं नीत्वा पुत्राया मन्यमान इदं विश्वं माया रुचितमात्मने अविद्यारचितस्वप्नगन्धर्वनगरोपमम् आत्मश्र्यपत्यसुहृदो बलमृद्धकोशम् अन्तः परं परिविहारभुवश्च रम्याः भूमण्डलं जलधिमेखलमाकलय्य कालोपशिष्टमिति स प्रिय विशालाम् तस्याम्बिशुद्धकरणशिववार्विगाह्य बध्वासनं जितमरुन् वनसासिताक्ष सूले दधार भगवत्प्रतिरूपये तन्धाय तदव्यवहितो व्यसिजसमाधौ भक्तिं हरौ भगवती प्रवहन्नजस्रमानन्दबाष्पकलयामुहुरज्यमानः विक्लिद्यमानहृदय पुलकाचिदाङ्गो नात्मानमस्मरन्दसा विति मुक्तिलिङ्गः सददर्शभिमानाग्रं नभसोऽ वरतन्ध्रुवः विभ्राजि यद्दशधिसौ राकापतिमिवोदितं तत्रानुदेव प्रवरौ चा चतुर्भुजौ श्यामौ किसूरावरुणाम्बुजेक्षणौ स्थिताववष्टभ्य गदांशुवाससौ करीटहारां गदचारुकुण्डलौ विज्ञाय तावूत्तमगायकिङ्कराम् अभुत्थितसाध्वसविस्मृतक्रमः न नामनामाणि गिरणन् मधुमद्विष पार्षद्प्रधानावितिसङ्घताञ्जलिः तं कृष्णपादाभिनिवेष्टचैतसम्बद्धाञ्जलिं प्रसृणं मृकुन्धरं सुनन्दनन्दा उपसृत्य सस्मितं प्रत्यूचतो पुष्करनावसम्मतौ सुनन्दनं सुनन्दनां सुनन्दावचतु भो भो राजन् सुभद्रं ते वाचं नो य पञ्चवर्षस्तपसा भवान् देवमतित्रिपद तस्याखिलजगद्धातु रावां देवस्य शार्गिनः पार्षदाभिः सम्प्राप्तौ नेतुं त्वां भगवत्पदं सुदुर्जयं विष्णुपदं जितं त्वयां यः प्राप्य विचक्षते परम् आतिष्ठतच्चन्द्रदिवाकरादयो गृहर्चतारा पर्यन्ति दक्षिणम् अनाश्रितं ते पितृभिरन्यैरप्यङ्गकर्हि चेत् आतिष्ठजगतां वन्द्यं तद्विष्णो परमं पदम् एतद्विमानप्रवरम् उत्तमश्लोकमौलिनाम् उपस्थापितमायुष्मन्नधिरोढुं तुमर्हसे